अयोध्याकाण्डं सर्गं फो तदत्सुमित्रा दृष्ट्वैनं रामं राज्ञीं ससंभ्रमा कौसल्यां बोधयामास रामोऽयं समुपस्थितः श्रुत्वैव रामनामैषा बहिर्दृष्टिप्रवाहिता रामं दृष्ट्वा विशालाक्षमालिङ्ग्याङ्गेऽन्यवेशयद मूर्ध्न्यवख्राय पस्पर्श गात्रं नीलोत्पलच्छवि भुङ्क्ष्वपुत्रेऽधि चप्राह मिष्टमन्नं क्षुधार्दितः रामः प्राहनमे मादर्भोजनावसरकुतः दण्डकागमने शीघ्रं मम कालोऽद्य निश्चितः कैकेयीवरदानेन सत्यसन्तः पिता मम भरताय ददौराज्यं ममाप्यारण्यमुत्तमम् चतुर्दशसमस्तत्र ह्युषित्वा मुनिवेश्यधृक आगमिष्ये पुनः शीघ्रं कर्तुमर्हसि तच्छ्रुत्वा सहसोद्विघ्ना मूर्च्छिता पुनरुद्धिता आहरामं सुदुःखार्ता दुःखसागरसम्बुदा यदि सत्यं यासि चेन्नय मामपि त्वद्विहीनाक्षणार्थं वा जीवितं धारये कथं यथा गौर्बालकं वत्सं त्यक्त्वा तिष्ठेन्न कुत्रचिद् तथैव न शक्नोमि प्राणात्प्रियं सुतं भरताय प्रसन्नश्चेद्राज्य राजा प्रय्छत कि वनवास यापयदी प्रिय कैकेय्यास्वच्छत या किपराधम हि वा कैके नृप्यवा पिता गुरधारा तवाहमधिका ततः पित्राज्ञप्तो वनं गन्तुं नृपवाक्यतः तदा परित्यज्य गच्छामि यमसादनं लक्ष्मणोऽपि ततश्रुत्वा कौसल्यावचनं वृषा उवाच राघवं वीक्ष्य दहन्निव जगत्रयं उन्मत्तं भ्रान्तमनसं कैकेयीवशवर्तिनं बद्ध्वा निहन्मिभरदं तद्बन्धून्मातुलानपि अद्य पश्यन्तु मे शौर्यं लोकान् प्रदहदः पुरा रामत्वमभिषेकाय कुरु यत्नमरिन्दम धनुष्पाणिरहं तत्र निहन्यां विघ्नकारिणः इति ब्रुवन्दं सौमित्रिमालिङ्ग्य रघुनन्दनः चूरोऽसि रघुशार्दूल ममात्यन्तहिते रतः जानामि सर्वं ते सत्यं किन्दु तत्समयो न हि यदि दं दृश्यते सर्वं राज्यं देहादिकं चयद यद् यदि सत्यं भवेत्तत्र आयासफलश्च ते भोगाः मेकविधानस्तविद्युल्लेखेव चञ्चलाः आयुरप्यग्निसन्तप्तलोहस्तजलबिन्दुवद यथा व्यालगलस्थोऽपि भेको दंशानपेक्षते तथा कालाहिनाग्रस्तो लोको भोगान् शाश्वतान् करोति दुःखेन हि कर्मतन्त्रं शरीरभोगार्थमहर्निशं नरः देहस्तु भिन्नः पुरुषात् समीक्ष्यते को वात्र भोगः पुरुषेण भुज्यते पितृमातृसुदभ्रातृदारबन्ध्वादिसङ्गमः प्रपायामिव जन्दूनाम् नद्याम् नद्यां काष्ठौकवच्चलः चायेव लक्ष्मीश्चपला प्रदिदा तारुण्यमम्बुर्मिव दध्रुवं च स्वप्नोपमं स्त्रीसुखमायुरल्पं तथापि जन्तोरभिमान एषः संसृतिस्वप्नसदृशी सदा रोगादिशङ्कुला गन्धर्वनगरप्रख्या मूठस्तामनुवर्तते आयुष्यं क्षीयते यस्मादादित्यस्य गदागतैः दृष्ट्वान्येषां जरा मृत्यु कथञ्चिन्नैव बुध्यते स दिवसस्यैव रात्रिरित्येव मूढधीः भोगननुपतत्येव कालवेगं न पश्यति अविद्या संसृतेर्हे दुर्विद्या निवर्तिका तस्माद्यन्तः विद्याभ्यासे मुमुक्षुभिः कामक्रोधादयस्तत्र शत्रवशत्रुसूदन तत्रापि क्रोधयेवालं मोक्षविघ्नाय सर्वदा येनाविष्टः पुमान् हन्ति पितृभ्रातृसुहृत्सखीन् क्रोधमूलो मनस्ताभक्रोधसंसारबन्धनं धर्मक्षयकरक्रोधस्तस्मात् क्रोधं परित्यज क्रोध एष महान् शत्रुस्तृष्णा वैतरणीनदी सन्तोषो कामधुक तस्मात् शत्रुरेवं भवेन्नदे देहेन्द्रियमनःप्राणबुद्ध्यादिभ्यो विलक्षणः आत्मा शुद्धस्वयं ज्योतिरविकारी निराकृतिः यावद्देहेन्द्रियप्राणैर्भिन्नत्वं नात्मनो विदुः तावत् संसार दुःखौ खैः पीड्यन्ते मृत्युसंयुताः तस्मात् त्वं सर्वदा भिन्नमात्मानं हृदि भावय बुद्ध्यादिभ्यो बहिः सर्वमनुवर्तस्वमाखितः भुञ्जन् प्रारब्धमखिलं सुखं वा दुःखमेव वा जरा व्याघ्रीव पुरतस्तर्जयन्त्यवतिष्ठते मृत्युत्सहैव यात्येष समयं सम्प्रतीक्षते दे। देहेहं भावमापन्नो राजाहं लोकविश्रुतः इत्यस्मिन्मनुदे जन्धुकृमिविभस्म संिते त्वगस्तिमान्सविन्मोत्र रेदो रक्तादिसंयुतः विकारी परिणामी च देह आत्मा कथं वद यमास्थाय भवान् लोकं दग्धुमिच्छति लक्ष्मण देहाभिमानिन सर्वे दोषाः देहोऽहमिति या बुद्धिरविद्या सा प्रकीर्तिता नाहं देहश्चिदात्मेति बुद्धिर्विद्येति भण्यते प्रतिक्षणं दा भुवद सपत्ना इव रो शरीरं रोगौकाशरीरं प्रहरन्त्यहो प्रवाहपतितं कार्यं कुर्वन्नपि न लिप्यसे बाह्ये सर्वत्र कर्तृत्वमावहन्नपि राघव अन्धशुद्धस्वभावस्त्वं लिप्यसे न च कर्मभिः कृष्णं हृदि भावय सर्वदा संसारदुःखैरखिलैर्बाध्यस्येन कदाचन त्वमप्यम्बममादिष्ठं हृदि भावय नित्यदा समागमं प्रदीक्षस्व न दुःखैः पीड्यसेचिरं न सदैकत्र संवासकर्ममार्गानुवर्तिनाम् यथा प्रवाहपतितप्लवानां सरितां तथा चतुर्दशसमासङ्ख्या क्षणार्थमिव जायते अनुमन्यस्व मामम्बदुःखं सन्त्यज्य दूरतः एवं चेत् सुखसंवासो भविष्यदि वने मम इत्युक्त्वा दण्डवन्मादुःपादयोरपदचिरम् उद्दाप्याङ्गे समावेश्य आशीर्भिरभ्यनन्दयद सर्वे देवाः स गन्धर्वा ब्रह्मविष्णुशिवादयः रक्षन्तु त्वां सदा यान्तं तिष्ठन्तं निद्रयायुदं। इति समालिङ्ग्य पुनः पुनः लक्ष्मणोऽपि तदा रामं नत्वा हर्षाश्रुगद्गदः आहरामममान्तस्तः संशयोऽयं त्वया हृतः यास्यामि पृष्ठतो राम सेवां कर्तुं तदा दिश अनुगृह्णीष्व मां राम नो चेत् प्राणान् त्यजाम्यहं तथेदि राघवोऽप्याह लक्ष्मणं याहि माचिरं प्रतस्थे तां समाधातुं गदसीतापदिर्विभुः आगदं पदिमालोक्य सीता सुस्मितभाषिणी स्वर्णपात्रस् तसलिलैः पादौ प्रक्षाल्यभकृतः पप्रपदिमालोक्य देव किं सेनया विना आगतोऽसि गतकुत्र श्वेतच्छत्रं च ते कुतः वादित्राणि न वाद्यन्ते राज्ञा मे दण्डकारण्ये राज्यं दत्तं शुभेऽखिलम् अदस्तत्पालनार्थाय शीघ्रं यास्यामि भामिनि अद्यैव यास्यामि वनं त्वं तु श्वश्रू समीपगा शुश्रूषां कुरु मे माधुर्न वादिनो वयम् यदि ब्रुवन्दं श्रीरामं सीदा भीदाब्रवीध्वचः किमर्थं वनराज्यं ते पित्रा दत्तं महात्मना तामाह रामः कैकेय्यै राजाप्रीदो वरं ददौ भरदाय ददौ राज्यं वनवासं ममानखे सामन्तराजसहितः सम्भ्रमानागतोऽसि किम् इति इतिस्म सीदया पृष्ठो रामसस्मिदमब्रवीत् चतुर्दशसमस्तत्र वासो मे किलया जिदः तया देव्या ददौ सत्यवादी दया परः अध गमिष्यामि मा विघ्नं कुरु भामिनि श्रुत्वा तद्रामवजनं जानकी प्रीतिसंयुता अहमग्रे गमिष्यामि वनं पश्चात्त्वमेष्यसि इत्याह मां गन्तुं तव राघव नोचितं तामाह राखव प्रीतस्वप्रियां प्रियवादिनीं कथम वन ष्यं बहुव्याख्रमृगाकुम राक्षरूप सन्धिषोजिन सिंहव्याख्राहा सचरानी सत्वम्लफलमूला भोजनाथ सुमध्य सुमध्यमे। अपूपान्नव्यञ्जनानि विद्यन्ते न कदाचन काले काले फलं वापि विद्यते कुत्र सुन्दरि मार्गो न दृश्यते क्वापि शर्करा कण्डकान्वितः गुहागह्वरसम्बाधं चिल्लीदंशादिभिर्युधम् ेवं बहुविधं दोषं वनं पाद दण्डकसंज्ञादचारेण गन्तव्यं शीतवादादपादिमद राक्षसादीन्वने दृष्ट्वा जीवितं हास्यसे चिराद तस्माद्भद्रे गृहे तिष्ठ शीघ्रं द्रक्ष्यसि मां पुनः रामस्य वचनं श्रुत्वा सीता दुःखसमन्विता प्रत्युवाजस्फुरद्वक्त्रा किञ्चित् कोपसमन्विता कथं मामिच्छस्येत्यक्तुं धर्मपत्नीं पतिव्रता त्वदनन्याम दोषा मां धर्मज्ञोऽसि दयापरः त्वत्समीपे स्थितं राम को वा मां दर्शयेध्वने फलमूलादिकं यद्यत् तव भुक्तावशेषितं तदेवामृदतुल्यं मे तेन तुष्टारमाम्यहं त्वया सह चरन्ध्या कुशाकाशाश्च कण्टकाः पुष्पास्तरणतुल्या मे भविष्यन्ति न क्लेशयेनैव भवेयं कार्यसाधिनी बाल्ये माम् वीक्ष्य कश्चिन् मां प्राहते विपिने वा पत्या सह भविष्यति सत्यवादी द्विजो भूयाद्गमिष्यामि त्वया सह अन्यत् प्रवक्ष्यामि श्रुत्वा मां नयता ननं रामायणानि बहुश्रुतानि बहुभिर्द्विजैः सीतां विना वनं रामो गध किं कुत्रचिद्वद अतस्त्वया गमिष्यामि सर्वथा त्वत्सहायिनी यदि गच्छसि मां त्यक्त्वा प्राणान् त्यक्ष्यामि ते ग्रदः इति तं ज्ञात्वा सीताया रघुनन्दनः अब्रवी देवी गं वन शीघ्र मै सह अरुंधत प्रयचाशो हाराण ब्राणेभ्यो धन सर्व दत्वा गच्छा महे वनमुवा लक्ष्मणेनाश्युजा भक् दौ गवां वृन्दशतं धनानि वस्त्राणि दिव्यानि विभूषणानि कुडुम्बवद्भ्यश्रुतशीलवद्भ्यो मुदा द्विजेभ्यो रघुवंशकेतुः अरुन्धत्यै ददौ सीता च रामो माधुसेवकेभ्यो ददौधनमने कंधपुरवासीभ्य सकेक्य पौरजान पदे ब्राह्मणे सहस्रश लक्ष्मण सुम तो कौसल्यार्पयद धनुष्पाणी सगत रामस्याग्रे व्यवस्थितः रामसीतालक्ष्मणश्च जग्मुः सर्वे नृपालयम् श्रीरामः सहसीदया नृपपथे गच्छन् शनैः सानुजः पौराञ्जानपदान्कुतूहलदृशः सानन्दमुद्वीक्षयन् श्याम कामसहस्रसुन्दरवभुक्कान्द्या दिशो भासयन् पादन्यास पवित्रिताखिलजगत्प्रापालयं तत्पितुः इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अयोध्याकाण्डे चतुर्धसर्गः ओ